श्रीहरये नमः अथ षष्ठोऽध्यायः श्रीशुक उवाचा अथ ब्रह्मात्मजय देवै प्रजेशै आवृतोऽभ्यगद् भवश्च भूतभव्येषो ययौ भूतगणैर्व्रतः इन्द्रो मरुद्भिर्भगवान् आदित्या वससोऽस्विनो ऋभवो अङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः गन्तर्वाप्सरसो नाघः सिद्धचारणगोह्यकाः ऋषयक्पितरश्चैव सविद्याधरकिन्नराः द्वारकामुपसञ्जग्मो सर्वे कृष्णदितृक्षवः वपुषायेन भगवान्नरलोकमनोरमः यशोवितेन लोकेशो सर्वलोकमलापहं तस्यां विभ्राजमानायां संवृद्धायामहर्दिभिः व्यचशत् अवितृप्ताक्षा कृष्णम् अद्भुतदर्शनं स्वर्गोत्यानो भगैर्माल्ये शातयन्तो यदुत्तमं गीर्भिचित्रपदार्थाभेस्तुष्टभोर्जगदीश्वरम् देवावूचो न तास्मतेनाथपदारविन्दं बुद्धीन्द्रियप्राणमनोवशोभिः यश्चिन्त्यतेऽन्तर्हृदि भावयुक्तेर्मुमुक्षुपे कर्म मयोरुपाशात् त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं व्यक्तं सृजस्य वसिलुम्बसि नैतेर्भवानजितकर्मभि इजते वै यत्स्वे सुखेव्यवहिते प्रथो न विद्याश्रुतात्ययनधानतपः क्रियाभिः सत्त्वात्मनां लृषभते यशि प्रवृद्ध सश्रद्धया श्रवणसम्भृतया यथा स्यात् श्यान्नस्तवाङ्घ्री अशुभाषयतु मघेतुः क्षेमाय मुनि मुनिभिरार्तहृदो ह्यमानः यः सात्वतः समभिभूतय यश्चिन्त्यते प्रणयपाणिभिः अध्वराग्नौ त्रय्यानिरुक्तविदिने सह विर्गृहीत्वा अध्यात्मयो कबुतयोगिभिः आत्ममाया जिज्ञासोभिः परमभागवतः परिष्ठः पर्युष्टया तव विभो वनमालयेयम् संस्पर्धिनी भगवती प्रीतिपत्नी वश्रीः यः सुप्रणीतम् अमुयार्हणमादधन्नो भूयात्सदाङ्ग्रिरसुभाषयधूमकेतुः केतुश्रीविक्रमयुतस्त्रिपतत्पताको केतु यस्ते भयाभयकरोऽसुरधेव शम्भोः स्वर्गाय साधुषु कलेष्वितराय भूमन् पादः पुनात् भगवन् भजताम् अघम् नः न स्योतगावयि वयस्य वसे भवन्ति ब्रह्मातयस्तनुभृतो मिथुरर्थ्यमानाः कालस्य ते परस्य सं नस्तनोतु शरणः पुरुषोत्तमस्य अस्यासि हेतुहृदयस्थिति संयमाना अव्यक्तजीवमघताम् अपि कालमाहुः प्रवृत्तः कालोकबीररय उत्तमपूरुषस्त्वं त्वत्तः पुमां समधिगम्य यया स्ववीर्यं ीर्यः सोऽयं तयानुगत आत्मन आण्डकोशम् हैमं ससर्ज बहिराभरणै जगतश्च भवानदीशो यन्माययोत्तगुणविक्रियया उपनीतान् अर्धाञ्जुषन्नपि कृषिकपथेन लिप्तो येन ये स्वतः परिहृतादपि स्मायावलोकलवदर्शितभावहारी प्रोमण्डलप्रहितसौरथमन्द्रसौढैः पद्म्यस्तु षोटस सहस्रमनङ्गबाणैर्यस्येन्द्रियं विमतित्वं करणैर्न व्यस्ताममृतगतो स्त्रिलोक्याः पाधावने च शरितः समलानि हन्तुम् आनुश्रवं श्रुतिभिरङ्ग्रजमङ्गसङ्घैर्तीर्थद्वयं शुचिषधस्त उपस्पृशन्ते इत्यभिष्टूय विभुतैः शेष सधतृतिर्हरिम् अव्यभाषत गोविन्दं प्रणयाम्भरणाश्रितः ब्रह्मोवाच भूमेर्भारावताराय पुरा विज्ञापितप्रभो अ त्वमस्मापि अशेषात्मंस्तत्तथैवोपबाधितं धर्मश्चस्तापि तत्सत्सु सत्यसन्ते शोभयि त्वया कीर्तिश्च दिक्षु विषिप्ता सर्वलोकमलापः अवतीर्य यथोर्वंसे बिप्रद्रूपम् अनुत्तमं कर्माण्युद्धामवृत्तानि हिताय जगतो कृताः यानिते ते चरितानि स मनुष्या साधवः कलौ शृण्वन्तकीर्तयन्तस्य त्रिशन्त्यञ्झसा तमः यदुवंसेवतीर्णस्य भवतः पुरुषोत्तम शरश्च तं व्यतीयाय पञ्चविंशाधिकं प्रभो नाधुना ते किलाधार देवकार्यवशेषितं कुलं च विप्रसादेन नष्टभ्रायमभूतिधं ततस्वधाम परमं विशस्व यदि मन्यसे लोकपालान् पाहि वैकुण्ठकिङ्करान् श्रीभगवानुवाच अवदारितं ये तन्मे यदा त विभुतेश्वर कृतं वक्कार्यमखिलं भूमेर्भारोऽवतारितः तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतं लोकं जिकृशद्रुद्धं मे वेल महार्णवः यद्यसं यद्यसंहृदयतृप्तानां यदूना विपुलं कुलं गन्तास्न्येन लोकोक्यम् उद्वेलेन विनङ्क्षयति इदानीं न स आरब्ध कुलस्य द्विजसापतः यास्यामि भवनं ब्रह्मन् ये तदन्ते तवानगः इत्युक्तो लोकनाथेन स्वयं भो प्रणिपत्यतं सखदेव गणैर्देव स्वधामसमबध्यत अतस्तश्यामहोत्पातान् द्वारवत्यां समुत्थितान् विलोक्य भगवानाह यदो वृद्धान् समागतान् श्रीभगवानुवाच ये ते वै सुमहोत्पाता यत्तिष्ठन्तीह सर्वतः सा पच्च न कुलस्यासीत् आर्यकाः प्रभासं सुमहत्पुण्यं यास्यामोद्यैवमाचिरं यत्र स्नात्वा दक्षसापाद् गृहीतो यक्ष्मणोढुराट् विमुक्तबिषात् सद्यो भेजे भूयः भोजयित्वोऽसि जो विप्रान्नागुणवतान्धसान् तेषु दानानि पात्रेषु श्रद्धयोक्त्वा महान्ति एवं भगवदादिष्ठा यादवाकुलनन्दनं गन्तुं कृदधि यस्तीर्थं शन्ध्यनां समयूयुजन् तन्निरीक्षयोद्धवो राजन् श्रुत्वो भगवतोदितं दृष्ट्वा अरिष्ठानि घोराणि नित्यं कृष्णमनोव्रतः विविक्त उपसंगम्य जगतामीश्वरेश्वरं प्रणम्यशिरशापाधौ प्राञ्जलिस्तम् अभाषत उद्धवो उवाच देवदेवे स पुण्यश्रवणकीर्तन संहृत्यैतत्कुलं नूनं लोकं सन्ध्यक्षयते भवान् विप्रसापं समर्थोऽपि प्रत्यगन्नयदीश्वरः नाहं तवाङ्घ्रिकमलं क्षणार्थमभिकेशव त्यक्तुं समुत्सुखेनाथ स्वधामनय तव विक्रीडितं कृष्ण नृणां परममङ्गलं कर्णपीयूषमास्वाद्य त्यजत्यन्य थ्या थ्या स्पृहां जनः स्यासनाटनस्थानस्नानक्रीडासनाधिशो कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहे त्वयोपभुक् गन्थ वासोऽलङ्कारसर्चिताः उच्चिष्टभोजिनो दासास्तव मायां जये महे वाधरः सनाय ऋषय श्रमणावोर्ध्वमन्दिनः ब्रह्माज्ञं धामते शांता शान्तासन्न्यासिनो मलाः वयं त्विह महायोगिन् प्रमन्तः कर्म त्वद्वार्तया तरिष्यामस्तावकै दुस्तरं तमः स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च गत्युस्मिते क्षणक्ष्वेलीयनृलोकविडम्भनम् उद्धवं समभाषत इति श्रीमद्भागवते महापुराणे एकादशस्कन्धे षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय